नामोदय सौराग्य कारज्ञानमेव ननात्महोदय चेन्द्रमग्रवेण इमान् महे शैले आनन्दपञ्चदशेन त्वमेन आत्मनोदय ये शेणत्मादने पालवंशेन आयेत इदम् वित्तरविचक्रवैव्यक्रमतांशुषेरन्नता हि आत्महोदयस्यात्मयामत्वम् एतेन वैदेवालयित्वा लिखित्वा किन्ताम् कामयते सा देवानाम् कर्मभागम् सा येत्रे समत्मानमस्मै वरिमानमस्मे अथभ्यगुरविदत्सर्वेति बाहु बाहोरिभष्टः भोतो भोजलदिविष्टः स्वभूता नामभिजर्मभोगः सत्यमजोजलूयम् इदम् शेषुश्रन्थेभज शैष्यामभ्यभिंशधराः शैषर्वाजम् विश्वमज्ञराजवन्धे येभिरादित्यस्तमधिक्रजेतुभिः शैषो कैशल् वायम्भय शैलेन चैले माज्ञागवन्ते आयम्भागवतारञ्ज वृक्षेः चिन्तयजय प्रजावान अस्मास्त्वञ्चित्रयम्बे वक्तम् चबलो जनास्तु खलञ्चित्रभानभागम् सत्यम् अतिष्ठाश्रमसिद्धा विद्यावक्षयदाः सान्तरिक्षवदलाक्षियाः अभियञ्जा अभित्रावस्त ेवरः तत्परिम् परिम् प्रसवक्ताञ्जन्तु कायत्वेन सन्दसः तत्र आदित्या शिष्टेवाभिजञ्चन्तान्दजः गृहोपयक्षादभिजञ्च लोपा सर्वम् चाभिनमुखयम् करम् मरुसामग्रे अस्थिनः सूर्यवन्तम् मघवानम् विकाद्वयम् इन्द्रमुख्यहोसमगुहुरेण प्रथमीरः आनोद्योजमुखङ्कृतेन आनवजनेश्वरेण निर्णाः वेलाः इदामि अधिकयस्वत्नः खलु हङ्कवम् अर्थयौ स्वान्तम् वाक्रमण सञ्चरन्तौ दूरे तेनाग् पालयन्तौ नमस्तरि वेदनः अभिधाये स्वाहा प्रधाये स्वाहाभिरस्तवे दत्सोभिरः आहस्तेन्द्रैव योजयश्व स्मः आदिष्टव्याधिष्ठन् लम्भरे हस्त्यैन्द्रा मित्रावर्णौ यौश्च शुक्रगृहदक्षिणा हस्ता ेव्याः राजानाम् सत्परिम् वयम् हरिवादे विघ्नवः हेतिष्ठा क्षिह्णमाणा या माम्पदिभितम् विदम् अन्यैन जनमञ्जराम् सन्माताके तत्ताद्योलात्वमदुतोमयभुवः समुद्रन्दभगवन्तम् मज्जन्ते पुरता वेदौर्यः कुशिरम् नामकम्बजः कुचिविरे लदौर्यः अहम् वाचा परिवाचनम् एता ते नमस्ते ब्रह्मो भवने शुभ्रः हेक्ष्णायः मार्गाः हे न सोमत्सरायज्ञा वर्णस्य विज्ञान्रह्माणावैल्याम् तथा शाजय सुख्यमिन्ताय स्वनम् बहुधायनिषाय होगुप्स्य नैवम् वत्र राजवन्दः हरम् देवा भगवत्त्वेन श्रीगुरुब्रह्म निधत्तम् वत्र राजवन्दयाः यत् श्रीमन्धङ्कण् श्रीगुरुब्रह्मकृनेतन्निधत्तम् होगुस्तमगन्त न्न यद्यहन्य सद्यघनस्य लिखनस्वम् शिवात्मानम् सालोजमले यौजेन नैवम् वेल शिरोराजानं च सौनाभजाय योमानस्तपत्यम् गच्छते सत्यद्वै श्वाश्रय होलः जयितुम् जय ओद्धेज्ये वदने हयद्वे क्षत्रस्यम् जलस्मे हरम् जस्मे विशोफलिम् ऐ नव इच्छालम् गच्छते च एवम् वेदाय नक्षत्राण्यादे शयिन्द्र नक्षत्राण्या दत्ता न क्षत्राण्य भो मन्दिरे अन्यक्षत्राणाम् नक्षत्रत्वम् आश्रय परभ्रादुर्येन्द्रियम् सत्य शय जय सुम् वेदा सद्यथा हेत किः एवमेतौ हिमन्तौ स्तमौ हयकृते सुप्रियजय स्वात्मनापहस्ये अपरात्मानुभरे हय नैजयेवम् वेदा सज्जता हरेतो जग्रावण्यः एवम् चन्दाकुण्ठे चय प्रसादित्याभिहरेद्योषः सर्वाभि हरेहण्ये हृयाभि त्रिरक्षाभिश्वरक्षाभिश्व श्रीरी ब्राह्मणे च जालेः जिलिबले त्रिरक्षाभिश्व त्रिरेव मेधाः पत्यमानः यम् त्यक्त्याम् प्रजापदित्याम् एव प्रजापदे प्रजानाम् समानाः हरे लोकात् प्रजापते ङ्गम् सहस्रधामायम्भयिन्नः सोमाभोषणे मो देवो सोमाभोषणायम् सप्तचक्रमविश्वम् शोकसम्मतता युज्यमानम् अन्यन्वताञ्च लक्ष्म्यम् दव्यच्चः दिव्यामन्याभ्यन्तरिक्षणे कालस्मभ्यम् भवतारम्बवृक्षम्विष्यतः अन्नाभिमथारिम्बविश्वमिन्नः अयम् सौमार्यो अवजयः विस्वान्य विश्वमन्यापरिरक्षा स्वमाभोजनावसन्ध्यगम्य युवभ्याम् निष्ठा प्रदनादियेतुम् वरुणा श्रीवासः अवशरेणे आदित्या धारयन्तः आदित्या सित्वा भोगेन धारयन् यज्ञा देवानागुश्रीरवः च पुत्रालस्यदेवालस्य पन्तः श्रीगन्नादित्यादिवैरिक्रिय रामेण देवारसत्यः आर्यानाम् चौहनाजुधानाः चैनवाजय श्रीवसामिलम्बिवरियन्द्रेजाः तयमानायमुदय आदित्याम् कृतमन्तमक्षे हानपुत्रादिजयज्ञान् आदित्या वैरानयेः अक्षय रामम् दामुदय धन्नवन्तः क्षवन्तपुत्राम् मरिगय अवित्यायदेवाः तेयर नम्भ यती राइगें असिंग, जाला अस्टे बंदो अब जुरेवां, अस्वधन बुस्तार जे अप्रे गुंदरार, अवित्या क्राम अविको अज़ाना, हाँ, हम्याने दुदा राजे अस्वाने, इस्वाने अधियां इज्वाने, यो अध्यत पज्यो राण मेन अव्यम् मतिम् चे अोचम् यो देव्यामानुषा जन्मगुण्डे अन्तर्विश्वान् निवासे हादेः अग्नेयम् यद्विनम् वृक्षमाणाः अभवाहुषाणाम् अग्नेभ्यगच्छेः परस्वभ्यमुखवि चाम इस्वे बजरे परियत्ता, अग्येत्तं पायानंद्यो अस्वाने, सच्चितरे जुद्धा इस्वारा, बूस्क बच्चि पहुदान पुर्णी, भवादोगाय दनिका इजियो, प्रकारवो मैना वच्च्यमाना, ये बच्चिती इन्नाइसले वियंद्धा, एक्षिना जयलक्षिणमिन्द्रास्तम् अस्पभ्यम् यत्लक्षणोरेन्द्राः तदेलक्षभिलक्षसामधिग्वेन्द्रे मेलस्य फलिन्द्रना ैवके सम् दैवानाम् समस्या प्रहस्तायस्तनय सदोनि महावलान् गोमतोदेवयेदा कवचिसारणं सुवरस्सएका त्रस्सलंहंमेत्तमल्पेये त्रस्सदेहयेहाविस्ते आनयप्पालयेमि मारिप्पणागतेत्तना सर्पस्सविनायेगे येवमुस्सतनं जियं कहायेवावेचने आनगरेनान्त विलेशोमि हालाबुक्खिं अमदेसुक्खिहे तपतेनाय वा ते मतितेनै अमाजेनम् महाारवन्तमाजम् समारेण च मञ्जिन्दनातु कालान्ये रच्छेव अध्यायम् तुदस्तानि कालसाधनात्स्मिन् सदाव्यष्टप्रयोजनं कृते काले समानं विताविन्दे विमाबोलते विश्वः स्वभावे तन्नाह समालोकं मन्दैक्षम चञ्जयत आर्तमानो रत्तः यान्ते अलोक्रमित्रय विचक्रमे भागाः यथान्द्रः कृ ङ्गम् अपराम् सातमिन्द्रिश्वासाधय नूतनाय उग्रवम् सहोदा मेलम् भूरे जनिष्ठा उग्रत्सहलाय मङ्गलो निश्च बहुलाभिमानः अवर्थन्निन्द्रम् मरुतस्थिरच्च माता येनवामृतेन जन्मानेकम्प्रताभक्तेष्मानत्वमानाः अथेमाविष्टम्बेन्द्रयेण येन महामेना तोमिषम भोगानानि आमेना वन्दे विश्वस्तं रामं सदा अवष्टकं वज्रमावव प्रगोजह विश्वे विसमामनाः तवाज्य सुकृताः सर्वमनाय सतेन वत्स्वाः व्यवधरेण वरस्वानां वचिन्दहुते इन्द्रावत्तमः हस्तशोढये आदरशोमकरं इन्द्रां हम्देन अभिवाहनन्दभोति हयमुराचारीनाम्पस्वादरक्षोरविन्द्रः विश्वेधराः वृत्तन्ते यत्सानुभद्रिताम् वर्जयम् विश्ववेधराः वरणां संप्रयत्नार्थासिन्द्रा केदावृत्तं चोरेन्द्रा दैणाराजः जनाना सिन्द्रो देवांशं महख्यावरे सिन्द्रो देवा नमः स्ववणाः सिन्द्रा यज्ञं अविचारवाददानः शस्त्रोनां महायमु धर्मयमुसुने च शस्त्रसिन्द्रां मरुनाः सुक्तव्याः शस्त्रसिन्द्राणां नार्दलाया सिन्द्राविष्टान् तयना मध्ये प्रणामवान् मायाजिने भावयजनं चित्रष्टरस्वानि जनाय भावग्रहं त्र्यन्याभाले रत्स्वर्णाः सुत्त्वेन सुशोयते यत् या अभिवत्ते दोमदगच्छमः तिरंगवान् भावैः प्रमोदः अभिवागे रत्प्रलागिक्षः तस्मात् मत्प्रवलोकं प्रियं कुञ्जते गोयम्बरात् रत्स्वतेयत् सदा जिनद्युक्तै वचना कृत्वा वष्टं पुरा रत्स्वजलां घरणम् सत्त्वादिना देवनाष्टरत्사에 असामेण वणिविस्तलना विनोवं मतिं परेत्तम दिमादराम पतोविंदम् तेगैविस्तलस्यचनेतो तप्माइन्द्रायविराजोता इन्द्रदेवनाभिपास्पुरविदः विसां वदवज्राजिने महाने दिमादिहालयत्स्वृष्टारये सत्त्वज्ञेयत्तमब्रणावपयिन्नाय येन जालं गले महिपा खयना ब्रह्माध्वमेम दः समागत प्रद्युत्थावराये सेवां देवदिवहा उद्यारे आस्ते कमस्मेते चिन्द्रप्रवेर्या नन्देन चिन्द्रायामावलक्षराजा समच्छदगिने आवाजवाहो चेदराजा चेदगिना हरानयनेप परिदाबोल म् श्रेरा देवावरयायद्भ्याम् विश्वम् च देवं वरणम् च राशिम् श्रीर्धे श्रीभगव श्रेरमाश्रिष्ठाः प्रदे कृष्णोरम् वरुणा पूर्वभूतौ कृष्णो वर्णावृतशिवाः र्मः इदन्नक्षैः ते मयि कप्रेरिनन् नमः कवचात् सर्वप्रधानाभिरविः प्रभो दरेविस्नानाख्यसिदेव शीर्षकं तवंसयासुक्त्या आनोऽर्जवा प्रकृतिलेयकेन शननयात् परिवा मरुसं तगत्त्वा बाहुवर्य स्कदाः विघ्नेऽध्याम दिव्यदाराः पुर्के कथेरदतेज्ञाने कार्य एवम शजिरस्वच्छ्याहमेव भोजनपेशम् एतदन्तम् सत्त्वम् सङ्गर्भम यत्यन्नम् कृत्वादम्वादजवेदस्यवत्सर्मादध्रुद भोजनम् देवानाम् अवभे विद्यामेवम् भृजनम् चेददानम् श्रीमत्त्वमध्यम् <59an> <sharp> <sharpanzi> <sesi> <sm> एवं ब्रह्म ब्रह्मयक्षा वजन् रमयक्षणः योगामुदायत्र दिवे विना भजन स एव एत्सवम्ब्रह्मारोतः जय जागवजय ब्रह्म ब्रह्मय विश्व ोषे प्रसामजनश्च स्याः शपदः हस्ताम् घोषाद्वये सम्यक् श्रीयोः मारुनाय पदमजयम् अहं जय कामलो रक्षमानुज श्रीरा यन्तः गुरुत्वेन अनायिवे श्री श्रीकालो दक्षयमः अमावस्ये गमिदन्ना निजाराय गगश्वरेण अधिकन्निवितो लोकैरलते सदोदरादः उदयोदने सोदरादः वोत्सत्स्य रमाय तवतेरिया अभिगोपोत्ज्योजा अननवरदप्रबोधेन्द्रः तथा भगवन् सहमानवाके येर्शिवस्तर्घवन्दर्यनां सुरष्टराय ग्रहमालीये समस्तमाम् हिदये चन्द्रम् तो वागीनाते ग्रामदेवो प्रदष्टयाहे नस्य वाच्य आदेवस्फूर्गभय नवच्छानो ओत्सरार्धरागा वृत्तारे आविश्वदोगे तनेत् परवाये सिन्धव जन्ममुलवदथे चप्पे आदेवयार कृता लत्रा हमदे खत्रा रामानो हस्तेये खत्रे रानो नर्या गुरुरी समेते नपुग्रन्तो रघवा ख्यान्यप्रम् वरन्तः तस्पत्वरिपद्ये यस्यानिवान्तरिक्षरान्यत्वमेतः प्रियादेव विपत्सामः भवन्तोत्वः सत्यसमस्तप्रदेवर्णस्य देवाः हे दोपम् वेदत्नः त्यर्थभक्ष्णे अग्ने यादि अश्विनाथः चक्षुरेव मृदलानः विश्वः अस्मभ्यमुभवनम् ग्रियन्तः के े वा अस्माकम् ब्रह्मभिलग्ना अस्माकम् रक्षानुसारा हिमम् वस्त्राणि वसावसाते ष्ठाः हरे तत्सुवामित्रावर्णामहित्वम् हेमा तत्त्वलक्षे विष्पाः हनुवानेन अक्षे प्रपुंशम् मघोरक्षाः ततो मामित्रावर्णावये युवागुम्पत्यानाम् श्रेक्षाभिः श्रीमहाय श्रेणीवसेन धन्मैश्वय प्रधान अदाधाय महामनाने नमेते। दिक्पाये तथाले फलदासनादना। पादस्य हेरुद्रुन्ते नमे। शरणं गृणामि हे देवदेवे। यत्पद्गैजौ विरञ्ञेनुमा। तमेव शरणं गच्छामि देवोके। अरहन्तपरिणामत्त्वके। आद्यब्रह्मसांग गुम्हनेतो। पारत्तोज्यसमजलोहा। अभिनदेवार्पणं क्षमेदा। यञ्च युवामि ्राय भक्षम् विवाहवृक्षवत्सेवम् अध्यायक्षञ्चमानः कृते आद्राजय विभक्ष्मैः सवर्णश्च विलक्षणे हरिच्योः हिगो सूरेण सप्तभ्राजमानः अनुरञ्जनास्तूर्येण कृपूताः आयन्नतायणवालुण्ठे हिमालङ्नामृगामेवरणस्याग्नेः अन्तरिक्षम् तूर्य आत्मायुरक्षः स्वादश कर्मत्वैवम् स्वस्तः येयम् तिवङ्गमः तत्र अयम् यद्वानस्य ्यामः आदित्यस्य पदो वक्ष्यन्तः वयम् यत्रस्य पदो मित्रन्न एवं च ज्ञानो अत्र हरे प्रेमे महाब्रह्मा योक्तभोक्तः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 यज्ञे अस्मिन्दाय अद्यवाः इदम्पर्यतेयम् तभाम् मायाभुलिम् स्वभाम् सप्तयाभिम् समाजवेषाम् मणि त्यानाथिः अहमन्मन्तमग्ने ओलाम् आधारमस्य वनवत् सुम्भम् तस्मिन् प्रचलन् निवाः जहान् अहमन् नम्बरिचलामिच्छम् मश्वामे न्नम् यत्र महान्तौ शरोषकुर्धेन पक्षौ शिवम् ज्यिवेन भागम् सत्त्वम् हिमन्तोऽनन्द वेदतः शैतत्वन्नम् दानमन्नमपा हम् सत्यम् नेपादमाभव हन्नम् लब्माण विरतम् वदन्ति न्नम् अहम् एकस्तरे तन्नस्मेम् क्रियत्वाग् अहन्ताम् साधु मिलामस्यानिवता देवापजयम् जविश्वम् जविश्वम् सर्वा प्रसवामहिष्यामाः काले माविश्वाभवनः सा मा त्याः देवे अस्तु रामे श्रद्धामुद्रे दक्षिणे एवं फौजय अस्माकम् इदम् गृहे श्रद्धाञ्च वानाः वायुवा श्रद्धया होयते हविः श्रद्धाम् पादलभवामहे श्रद्धान् मध्यम् श्रद्धागुशोर्यस्य श्रद्धा हा श्रद्धादेवान्वक्ते श्रद्धाविश्वमिदम् जगते श्रद्धाञ्जामस्य मादरम् अवियावधयाम् प्रथमम् अन्तरिक्षम् विश्वे अभ्यर्थम्भक्तम् त्वम् भवन्तम् ब्रह्मणा वर्धयन्तः ब्रह्मदेवाचनयत ब्रह्मविश्वरम् जगते ब्रह्मणः क्षत्रम् निर्मितम् ब्रह्मब्राह्मण आत्मनाः अन्तरस्मिन् निय लोकाः अन्तर्विश्वरम् जगद ब्रह्मैव भूतानाम्पम् ब्रह्मूत ब्रह्मविन्द्रप्रजाभते ब्रह्मया विभूतानि नारेवान्यसमाहिता सर्वराजा प्रचलन्तव्ययः युराणाम् अभेनेन यन्यन तथाले रयम् तथादन तिलदारवाः तव वक्त्रकावलि न मे अत्थाले श्रावस्त्रवक्त्रपदमत्तः रक्तः हिमायागा वस्त्रजनायन्द्रः तिस्रायै दिला मनसा जिन्नम् त्वयङ्गा भो मे देथा कृञ्जरे हस्तैर्ञ्जुव्रा उपदेहम् प्रादन ग्रहणं करो भवदराजा रक्तं यत्तेन दा। दधातो िनाः न्दयक्षणा विश्वमयोव्रता विश्वकमले प्रदलनागतन्ता े होन्द्राभाषयम् ओर्वाञ्जनेनषक्षय हिमालयिमादे ता स्यानाये तगरा आनेतवारकस्य तयातेकं सत्थार्थभाान्यनवरक्किं जनाधार समाते समधागुढांत्रे प्रेणं धर्मसत्त्वमाजिन उत्चेना पवयजननायेते अमनपतनमेदायेयसं कावत्तरकेववर्तताभि आधोरेवपवयजननायेते अतोवं समस्यनविन्नन् दाम य देह प्रचराजाकुरम् वृत्तिः विसर्जनाय तथा स्वयः भोग जले क्षाधेन शेन महेष्णामनुवित्रेच्छनानि धारयन् सादज्ञम् सादयन्द्रम् भवामहे सालावमुद्रम्भुरेण सालस्यद्रम्भुरेण अयम् वस्त्रमहि अजयाम् मन्यमानत्वरक्षि साजा नित्यम् भगम् भक्ष्येत्याह न्दस्यामःदेवाः हेन वयम् भगवन्तस्यामः ेश्वरमुत्सन्तु भक्ताः सन्दुहानाः पूजम्पार ारम्भः ओ अभ्यर्णपादृच्छिकाः नक्षत्रम् देवमिन्द्रियम् जमाधराम् विलक्षणम् अमिरासञ्जवादन शत्रुभाञलक्ष्मयो यस्य केशवः शस्यमाविश्वाभवनाः कृतविशेषाय विश्वारूपायत्वनिमोदमाना प्रजापदिनम् भविता कथयन्ति प्रजादेवानाम्पजात यज्ञम् स्वमहाराजामेषु तथा नक्षत्रम् एवमहमिदाेमये जले प्रथमानये नक्षत्रयामः पुनर्वियम् देवानामफलत्र परम् चायमानः ऋष्यन्नक्षत्रमुखिरम्बभोगः हेवानाम् पुरनाशिष्ठायन् पुरस्तानः यच्छामि हेन्दे मह सञ्चरन्ते रामम् यम् भोस्तु वृक्षाः यज्ञम् प्रयतञ्जरन्ताम् हेम्राः हेम पितरः क्रियन्ते नाम ीनाम् देवाजीवन्भेम हे मेमाविश्वाभुवनाधिसञ्जितः चेदः हर्यमाराजा फल्गुणेनाम् भगवत्फल्गुणे तत्सित्तात्मभ्यम् क्षत्रमचलकम् सुरेर्यम् पहमतत्त पतंत देहा भगो हदाता भडी प्रशाचा भगो देवेट्षभुणे रालिकेशा खखट्चे द्रम्पत दवंगमेमा तिकल्दे वेट्ट्दमादम्मदेमा आजादे वच्छ विच्णगयादो तिरन्यर दुचादतेना बानाप्चकुं दुखंकिस्मनाः उर साधारमज्वाविक्षत्रमेवत्याः सन्नक्षाम् तन्नक्षत्रम्भोगम् तन्नक्षि यज्ञम् यम् नक्षत्रमुखे अङ्गानायः श्रेनाः वायुप्रान्नादक्षत्रम् तन्न देवासम्क्षत्र वायुम् य दैवादिवसन्तः उत्तमेनाम् एकमादयन्तानाम् त्याम् चैवं प्रत्ययम् य प्रभाय शममानाय इन्द्राय जयक्षामधुमध्वानाय लम् क्षत्रे <Sedwana> हराजे भवन्त शास्त्रयन्ते तानावशर्जनाभवन्तः प्रशायन्ते यज्ञम् तन्नक्षत्रम् प्रसदाम् मरुद्भ्यः च क्षत्र भेद्यायमान् भवनक्षत्र अस्मिन् भियम् पुदनः आक्रञ्चेनामः इच्छमानः पुण्यकृष्माकम् भजे त्वभिः महानाराज्ये राजा वर्णाभिराजः कक्षत्रानागम् सो यमbigcapमतो यक्षमाया व चवन्द्रस्य वेदानुत्तः इकेन महाराजः वर्णोपरे आगतः तन्नाविष्टे गृहिण्यृदेवा तन्नानकत्तमं रयमिदानं दीर्घमाये प्रजलं ते लजाणि तयेन बहुपुङ्गः स्वत्तः आगतः इश्वरभूताय परमोदमानः सत्वदेवः सदमयं विसवले गोचमरागो मदस्य वकाः तजायं वास्तनिदानुग्रहं आन्द्रेक्षमवजकञ्जाम समसौरियं देवमदयेकभाजनं तवक्षवनां गोह्रियं जरये हहिर्ध्वजं तस्मै देवेत्सवदेवनामसंदानुग्रहानांvndआन्धानात्संपाक्तोञ्यजः औक्षवनां विरक्षणं विरयेत् तत्स्वालयेण अभिरमदेवाः तवक्षवदाविजयानमुञ्जे न्देन ौ नक्षत्रिराम् समृभ्याम् जगलो राजा भरुआ यस्ताः योगक्षत्रज महामहाने नन्दनन्तां वयेन नमः कृष्णक्षत्रज्ञेणय जयराजा कृष्णेन उज्जैनन्देवताः सतेतं भृजय नाम अमापन् भर्यै भृत्सो त्रयत्र्यतेदेवः भगवान् गोर्दाजमानं गरुडार्चा नमः जयन्ति कलयवं भवान् आस्म्यं जयन्दे तवानन्दं चं परिदाशनाय तव परब्रह्म बोधस्ववे केन अक्षत्स्य अलवादनेन यन्दे रे शुमहाम विधानाः सक्तभो देवगेन्द्रानाः होराते अविनालसंत्था अविवात्मा नमोक्ष आगमेना स्तुतिवर्ष्ययते दृष्टं जेरीनाः ओम हेवणादयस्तसा य इन्द्राहेन्द्रम् भवामहे समक्षयम् लोच्यं जयं जयं अदरणावलक्षोये मातुमातरिभिः यमये सप्तर्षिभिः अज्ञेयमोद्घवः अन्नो च मधेन विद्यमदेवं भव्यवान् ज्येष्ठश्चन हज्यलवादनेतां अनारोळे बानारुच्यामि देवेन अक्षयमकेये रुचिराज्यपुरोनादमष्टानां प्राणिराधे सरेइतोरणनालोदेवान्हुदे एवम् एवम् वेदये स्वाहा स्वाहाये स्वाहायम् ज्येष्ठः भजम् ज्येष्ठ स्वलयमावचल मागञ्जलम् परि प्रणानां आरम्भवे राज्यं वदे तेन आर्यायेन तुदेन देवनां तास्सि लोके समायस्लाह्रि देय जायत् समां दुरान् यस्साहुरिं चस्साः राजाय समादिति सहजे मृद्रावागावेता वसुमान् चमि पययं वत्सायना इत्ये पययं वन्दनं पययं लोभने ततो हि सम्मनानो भवेत् वसुमानो भवेत् तेयतेन अभिदाविते योजनं ते उदितेतः होतृ भवेत् पुत्राः स्वहा इत्ये स्वहा विनावा इत्यः बुद्धितः भवेति पित्रा योजनं वमनं भवेति आगमेतः होतृ भवेत् परिपजयेति स्वाहा स्वाहाभो हे स्वाहा स्वाहे रमेन धर्मवत् हरियेन एव ब्रह्मवक्षायच्छाय हे वाद्रा संयत्सादन्य च देवा सत्यम्य तेन <Sessly> पुरोना अतो अवेदनं भवका आर्तवन्नं पितरणां वगे आराधनमजे तयोऽन आविदा यते तुजिनदेवं वदनां स्वत्थः होये पितृभ्यः समाभर्ज्ञा अहनां सप्त समानां राज्याः पाममरेम च सहदे हि हरिणां वागामेतां पुजनां चमिने तयोऽनारीं नय भदकुणेन च नरोण्योभये ततो अवेदनं पुजनानुभये भगे छे अय देवानां भवनाम् भवे यज्ञेन नमितावेयं सुदेवेभ्यः नमामि कौत्सलहोये गराय स्ताह बलमुनिनाः चलस्साः तेजस्य स्ताहेदि पवित्रावा अजामेताः तस्मिन् देवा हि न्यः पवित्रं गमिनेत् श्रेयं जवितेहस्ताय बहुदानं तान्द्रसमाः एवपना सोणाम् वेनाः प्रोमे सत्ये तद्देवा वदनः क्रियाहोरे स्यामेन स्वाहा स्वाहा स्वाहा कैरन मस्तके इत्थानि लोडाद मस्तकवान अन्यनोवद तदोगेश्वरं मदामनं वद । चित्रमहवे पज्राम्यन्तते चलेने नमिदा एदिते तुरीयते हम् लला । सत्वि हमि खप्ने स्वाईसरायस्थः कैतस्य स्वा प्राइस्थरेदि आयुगागामेता कामतानामे तुरोके सभीये यनि यद् द्वाय एव च ये स्किलं दमयोनिरवदे ततो वेदनां चाल्यं हेतुवच्यं तक्खनेदं कामचारं अपालेतुवच्यं तक्खनेदं सयंहविषा निदने तुजेन देवं वेदाः शास्त्रयो हि कायकेन सः हं च्ञेत् सः सामजराणि पहाृत्य सहयति लज्ञे वागं वेदम् तेन देवानामभिः एवति तान् रेमिन्द्रक्ञ्ज्ञं विद्याज्ञां प्रवर्द्धति नगालिङ्गं देवाममतः तववेमौ स्तेश्चन देवानाम मख्यदेवां शैशवमहदेशवानां मुरिले तगदेनविधाजिते तुदेनमेकमनदा तप्तिहोरे नकिब्धः अस्माकं जायत्सा एताय स्वाहा यकै स्वाहे एवस्तो वर्णार्क्ष्य आज्ञेयो भवति आरभयं बहुनमहाते समाह्यं तमेव नाम वदनाधेये कृत्स्नेकं गुन्थानाम् उपनमये तेन जगन्मयं यदये अस्तु होये उनहक्येत सहनालोय सहरक्षितः पित्राणां मयिभा पितृज्ञानेन मेदुन्के सभिजये यमिने तेन निस्साया लोरा तेऽक्षरनिर्मवदे ततो वेदेन मेदुन्के सभिजये सद्धयेन पितृयेम हवादेशनो ते सभिजये तनेतानामिदहेते तुजेन देवं वेदाः पाठये होंगे चित्राएत् सहानां नखत् सहा निपदयाय पहाविच्छे सहजे श्री तुनामभिलये जे श्री हरन्दाय जयष्ठाय भगवनाम् अभिलय न हे शयम् अवेशमानानाम् अभिलये श्री अनेन जयङ्गेन स्वस्मजे पूजा जयष्ठाय स्वाहा केशाय पार्थेयै पार्थेयै प्रापद्वागामेत ब्रह्मणं गन्देयते तयो सम्प्रदावदये भोलाय दलम्यर्पते ततोमेतमूलं प्रजानां विन्दजा भोलाय मदे प्रजानां विन्दजये क्षयतेन अमिताय जये तुदेन देवमपदा सत्वर्हये प्रजाभये स्वाहा मूलाय स्वाहा रईश्वरयेहि यस्ताः निश्चयेन निश्चयेन नमः भगवते रमाय नमः कृमलवर्तन विजयै निमिते कल्याणं ब्रह्मनाय विजयं धरमणेन वदे तस्मिन् ब्रह्मनाय नमः कळे कृमलवर्तनं भगवा अभिदेये चेतना अभिजागिने लोदेन देवं वदनां तस्मिन् होदि कृमणे स्वाहा जिते स्वाहा कृमलवकाय स्वाहा दित्ते स्वाहेनि कृष्णामयनाय पुण्याकृष्णामुञ्जनीय हवे श्वागतम् शवय नैनम् भापे केर्तिरागच्छागच्छ यस्वाहायस्तामयन्ता हतामे हरि अजम्भ्यस्तनञ्जनभगन् हसो देवतानां पर्यायन् हृम् हवेशमानानाम् पर्यजे हे अजन हविषय देवम् वेदाे हसोभ्यत्वाहा अज्ञायेत् स हावरे देहि स्वाहे हिन्दोदाकं वेदा वेदविक्षोभं तामिते खयदमुरनाय तदभिलेङ्कये देवतत्प्रोधां समज्ञावा नवम कृष्णानां अम्ब्रेण प्रोविशतु गोहिन्दोवदे तदाभा आशिषय भगवने जय जय अम्बायिले युज्येन देवम गयता तस्य होवे धर्माय सहा सदभिषे सहा हेदस्ये ब्रह्म एकेक्षरञ्जयश्च भवज हे दस्य हरे ब्रह्मवच्छाकेन अजा एकमजयस्वाहाभय धाः तेषां सार्थमत्तराय स्वाहे अयमेव तेयागावेदा दिमान् प्रष्टामिन्दयेय जेयनोवाय जगारे पाठवने जक्तु अलाह भूमिकमान निरवरे सुप्रवियै दिमान् प्रष्टामिन्दना दिमान् भवे प्रष्टामिन्दने तेयनेन अदितायिलवे सुदेवन देवमिरदा पाठितो होये आये उन्दिना यच्छा प्रक्सक्रें जच्छा हाँ जच्छा ये इस्वा है जी आप श्रस्वाद आमयदा कुषुमान स्रामिले पेरूम् बोक्ष्ण रेवक्ति जुन्मित भुझे तबर ज़ाविनो पुझे कुषुमान अभी भुझे च्रेयादे आव अस्य नौगा आगमयेताः सोऽसत्यना वजिरावच्छारेदे आवे नमस् सुज्ञानाः श्रेयज्ञानां भूराजन्दिगलांन्यनां तथावेन स्वस्त्राः सत्यना वजिराभवराः सोऽसत्यि हारावजिराभवने कयकेन अलिगाविले दे तुजने देवं पन्नाः सोऽस्तुहोये अक्षत्र glyphाः इज्ञात् स्ला हरे ेन कामे चन्द्रमाबागामेता अहोरास्त्रं सभासान् महादान् सोन् सम्भक्तनात्रा चन्द्रस्यै जगत्कंसलभना महात्म्यानिगे चलेनन् चन्द्रवरेय पुदेवष्टाय एवrowDataं कञ्जरेणमान निरवरे सधोवे सोमोरास्त्रान् दभागां मारजन सोन् सम्लक्षर्मात्रा चन्द्रस्यै जगत्कंसलभना महात्मोरे हित्यमग् महात्मोजी हय अविनायके शुजेन जेनताः देवनाचार्यस्ताः अर्धमाचार्यस्ताः मास्ताः संवर्धना यत्ना ो रात्रे वाहनावेत्रे अमुच्चैः धन हो रात्रे मा चोरात्राभ्याम् भयानाम् देहीनाम् शुक्लानाञ्च मिष्टानाञ्च स्वय श्वेताय च विशाहोरात्रे अमुच्यते थेने आपुझाम् आपुझाम् हदिहम्हाँ हो लाक्रियमुच़्॥ जए नम हो लाक्रियमुच़्॥ सःन्होराँ आपुझाम् केजयं केर अविधाइ lust छोटियंके उंबेडां सात् सौट जोगे अन्हें स्वा हादां क्रिश्वाँ लाति अभेमुप्तेश्वा स्वाहाय स्वाहे नगम्यव एवमहं यथा एतद् नक्षत्राय स्वाहो स्वाहाय स्वाहो स्वामः हवाहाय स्वाहाय स्वाहा च स्वाहा नक्षत्राणाम् प्रदक्षाय नक्षत्रेधनक्षत्राणाम् प्रतिक्षा भवने श्रेष्ठा अवेशमानानाम् भवतेन एवं स्वदे भूरि नक्षत्रे पुरस्कारे स्वाहे हृत्ये जलं निजे हत्या प्रतिगच्छायते यज्ञाने यज्ञाने स्वास्थो स्वाहाय स्वाहा पुरस्कारे स्वाहे ङ्गायत्यावर्णमक्षिद्यत तत्पर्णाभवज तत्पर्णस्य वर्णत्वम् ब्रह्म वे वर्णः यत्पर्णशाखया वृत्साय करोति ब्रह्मणे वैनानपाकरोति गायत्रो वै वर्णः गायत्रा कसवः तस्मात् त्रेण त्रेण वर्णस्य महाशाने त्रिपदा गायत्रये शब्दशाखयागात्रार्पयति स्वनादैवयात्रार्पयते शङ्कामये तापस्यादिने अपन्नाम् तत् सुः कामाहरे अपशुरेव भवते शङ्कामलयत पशुभान् चाजने बहु पद्नान्तस्मे बहु शाखामाहरेण पशुपन्तमेवनश्च लोकम् प्राचेमुदेशे माहरते उभयोरभिलच्यो चेत्याः शङ्किलमाणे वायवश्चयस्याः वायुर्वा अन्तरिक्षस्याध्यक्षाः अन्तरिक्षदेवस्याः खलु वै पशुरः वायवगेवैनाय फलायेन करोति हिरानः वायवश्चयस्य वायवश्चयस्याः हिमाना एव रजोनुपह्वयते श्रेश्वदमालिकर्मत्याः यज्ञादितमम् कर्म सत्मादेव भागेत्याः पुराणनिश्चभ्यश्चाध्यायन्ता हे वैशैना इन्द्रायाध्यायते ऊर्जस्तदे पयस्त देत्याः ऊर्जगृं हिमयसम्भरन्ते प्रजावयेन मेवायक्ष्मायित्याहप्रजाः चेत् मावच्छयनयेष् रमाभिजयम्भयित्याः भुक्त्यये सर्जस्य हयप्रणक्षित्याः सजादेवेनाहास्त्रायते द्रुवास्मिन् गवपदौ स्याद्भक्तेरित्याह ध्रुवा एवम्भक्ते करोये हिमारस्य मदोन्तायेत्याह पुशुमनाङ्गाय रत्माना सायम् प्रथम उपसमाहस्तम् च अनधस्तादये रघ्मानाम् चात्रभाजाय हस्तार्धाः सजानामत्रपादुकाः उपरेव नितधाजे उपरे वलितवर्गो लोकः स्वर्गश्च लोकश्च समस्यै जैवश्चप्रसव इत्यस्वपशुपादश्च अश्विनाम् बाहुभ्यामित्याह अश्विमौलिदेवानामध्वर्यो आस्ता यच्छेये यो वा गोढधेः पर्वशोदेन चैनाश्वहिनस्य सजापर्वा वोढधेः पर्वशोदेन हैनानहिनस्ये अष्टपस्वावच्छावत्यो वास्तयो गोढधेनानहिन्दायै यज्ञस्य गोरधयेत्याह हयवानरेन्दये प्रत्यक्षगुरक्षप्रत्यक्षाणादय इत्याह रक्षसामुपहत्ययेजलक्षयत्याः विद्यालयेदक्षयत्याः आर्यवः प्रभाकृता सा वहन्ति कवयः पुरस्तादित्याः शिश्रुभागम् गौरे कवयः यज्ञः पुरस्तादाय एव यज्ञमासु अयदेशुक्त्वायः पुनश्चाहरे तत्त्वाच्च एव दिशुरभगे देवे प्रौदिष्टमिह परिभिरासुरयित्याह तर्हि समध्ये कर्मनोनपराधाय देवानाम् परिभूतमधेत्याः चद्वाभि च तद्धेवानाम् परिभूतम् असु अयतावस्तरे कृष्यामीति कावर परिजेदे ेवमेव आत्मनाभितस्तम् परिविषय सत्येषामक्षिदृश्यारितद्धे गम्भम् परिदिशे सर्वम् सर्वम् धायाच्चारेखाया परितसमुखेत्याहीतधायः परिहेत्याः चैमायत्मनो एवंत्याह प्रजागेव आश्रमे अवे कामाचाराश्चेत्याः पृच्छे अयङ्गायुङ्गान्मुष्टेन् नमो समक्त्वाय प्रजाः चेत् सम्पदाः पाकम्भरानेत्याः बृम्भयेवेन सम्भरी हरित्येदाः इयम्बालेः हत्या एवः इन्द्राणे वाद्य देवता भागम् समनक्ष्यमाज श्रद्धे सङ्गक्ष्यदे प्रजादे वर्धे प्रजानामपरावादाय हस्मात्मावसन्तदा प्रजाया इन्द्रोषाद्रन्थिङ्ग्रित्याः कृत्यमे अवैलमाय तथा सदयवानस्थादित्याः पश्चात्रान्तमुपगोहे पश्चाध्वे प्राजेन कुम्भेशो पश्चादेवाजेन कुम्भेशो दधाते इन्द्रश्च बाहुभ्यामुख्यक्षरित्याः इन्द्रियमाने दधाते ब्रह्मणे देवानाम् बृहक्पतिः ब्रह्मणैवैन फलते पुर्वन्धरे क्षमम् विहेत्यागत्ययेत्याह सेवामेवत्याय तत्पागर्थाः प्रजानामप्रपादुकाः उभले वणिलभागे उभले वणिलोकः स्वर्गस्य लोकस्य समटे ओर्ज्यले कलोके यज्ञमेवालभ्यगृहे हत्वापवधे प्रजापदरे यज्ञवशता तत् लोके अत्र यज्ञाये प्रजापतिः हस्तान्नाययोगे भवनः यज्ञप्रेमदुखे उपलभाच्यप्रबन्धाय सुन्द्रन्देव्याय कर्मणे देवयज्ञायावित्याह एवयज्ञाया देवेनाधिसुन्धरे मादविष्वना कर्माभित्याह सुन्दरि क्षं वे मादलिष्वना कर्मः केषाम् लोकानाम् विगत्यये योगेत्याह त्यैलाभुव्याश्च विश्वसायाः सत्यर्वै विश्वसायाः सत्यमेवावरुन्धे हिमहात्मादित्यये वसूनाम् पवित्रमहेत्याः कानादेव समःयम् हवित्रम् शरभ्य एव शतथा एवम् दः कृथा अनित्याः छाणेयश्चेवायम् तथा च सर्वत्राय श्रुत्वनादिशाखायानम् तद्भमयम् भवये सुवर्ध्वये चाणः शिवदमेव प्राणम्बितोऽयमानयसादे सौज्ञः पन्नश्चयित्वाय साक्षः परित्रम् गर्भाः सा सायमधेदसादे सत्रानापानैव लोकान् शल्यप्रातः तद्दरिषस्य लोकाम् न्नम् वे दन्दमानाः खन्नम् प्राणाः उभयमेव वैत्यजाय तस्मादेवम् सर्वदः पदे पुनत्वे हरिहरस्कन्धाय हरिहृदजप्राहस्कन्दयेः तस्य विक्रतो ेन प्रतिष्ठापयते परित्रैव प्रतिष्ठापयते अन्वानध्यमानम् यच्छयन्नाश्च सारयन्त भवन्ति कामसुखहित्याः ऋेयश्चे तैर्मे लौकाः इमानेव लौकाय यजमानो दिहे अमोविनामग्रन्थादे सद्यमेवासाम् कर्माविष्वर्मे सा विश्वायुस्ता विश्वगेदा विश्वकर्मे अत्याः इयम् मे विश्वायः अङ्करिकम् विश्वगेदाः अतो विश्वकर्मा इमानेवमेकाशल्लौकाय कुर्वन्द्हे कशोयताः प्रभात्रैरुण्यमासाश्चे कस्मात्रा दान्नेय वन्दमानाम् च हन्ते हेमाच व्यावच्चे श्रिलाः अवरिमितमेवावरुन्धारेण दृत्याव श्रद्धालुपात्रेण दृष्ट्या हरिषा रोडाशमुखा जले हरे तस्वरो हरिषोजा भवत्येव दारुपाध्ययस्याय श्रोद्रमेव नृत्या अथमवगारेकम्भो नः षट्श्रोद्रः अधरेव नित्याः षट्सोद्रानोध्ययने अद्यपात्रैवत्या श्रोद्रः तद्यनाभन्ते यदा कले पवित्रमस्त्ये हरे संवृच्छमतावधे नित्याः अवान् चैवौषधेनाञ्जनमुखकुण्डये हस्माधपाञ्चौषधेनाञ्जनसम्पजे वामः सन्त्राधनस्य सादनेत्याः पुत्रिमे वैद्यमाने नेन्द्राय दधेत्याः कले भक्षयित्वा स्वभक्षामु भवते स्वभक्षलेताम् शैलम् विद्वान् सानाम् नार्यम् पिबले अपनक्षामुखेश भवते न मन्मयेनापि दध्यात् सन्मये नापि दध्यात् पितृदेवत्यग्यस्यात् हयःपात्रेण वाजात्रे न वापिदधादे तद्यितदेवम्वजे आपेण सक्षतः वहते अनस्त्वेत्याह यज्ञावे विष्णः यज्ञा एव ददस्तम् गणवदे कृष्णाैत्याप्रभायर्थाः प्रजानामप्रभाः उभरे वनिदधारे उभरे वगतसर्गलोकः कर्मणे वाञ्जमित्याप्रजा पथवन्तायञ्जय शजस्य वित्समनः प्रजापलमानस्य वित्सिज्यम् षड्जस्ते यज्ञश्च वृन्दत्येतु नां वच्चे त्वा यज्ञस्य चाहवनेया सन्द्रमदे प्रजा एनागृहं दत्ते अवप्रणयदे श्रद्धावारामः श्रद्धा नैवारभ्य प्रणेयप्रजले अवप्रणयदे यज्ञो वा सज्जनेवारभ्य प्रणेयप्रजले भोवे देवानाः प्रियम् एव प्रियं धाम प्रणे अप्रजते हवप्रणये हा भोगे सर्वदा देवतालाः देवता देवालक्ष्य प्रणेयप्रजले ेदायक्लेत्याः वेदायकेन दा दये प्रत्यक्षप्रत्यक्षाजयत्याः कक्षतामहत्यै भुवजेत्याह हेधवेशलियोग्निः कञ्जलवस्त्रस्याधेयाज अध्वर्यम् च यजमानम्प्रदहेन वस्त्रस्यात्यजे अध्वर्यायजमानप्रजाप्रदाय महित्याः सौवादे तच्चै मन्धोर्मले सामये त्वम् देवानामृतस्यमित्याह यथा अप्रतमज अह्ये ब्रह्मक्याः यत्रत्य प्राकृयम् तत्सर्वम् वर्णदेवत्यम् पुदायेन अवारणमेवस्यफलैत्याहो हिनाः बाहोद्यामित्याह अस्मिदेव्यानित्याहयत्यैलेज्सन्दर्भेत्याः खड्गेणाञ्चपदेशम् अपरिजितनेवालोषय स एव नैवालगोर्भयम् हवेपदे इदम् देवानामिदमुनस्थेत्याह व्यामुखे स्वानारात्याः बुद्धेः करुदेव नेच्छे धृमैश्वानरञ्जोत्याः स्वजोलेः यावान्तान्दर्याद्यावाभित्याः ृत्येः रुमण्डलिक्षबन्धे हगत्येः अदित्याैवादिहानेत्याः तस्यागैवेन तस्यैवादने हव्यगुणक्षत्रेत्याभुक्तेः इन्दुक्रमहन् हेदाले समाजेन तदपाम त्मनादेवानः पृज एवः सदलप्रसोदयेवैनावत्पनादे अच्छिद्रेण पवित्रयत्याहारित्यक्षित्रम् पवित्रम् च देवैनामुत्पनागे असौर्यस्य रक्ष्याः काणालापः कानावसवः प्राणावत्रयः प्राणे एव प्राणान् सम्पृणे काविप्रियस्याः सरितप्रसोदम् एतर्माफलिते सरितप्रसोदमेवा त्रिकर्मफले सत्सकायप्रिया कृष्णमध्यत्वाय आमो देवे अग्ने भोरग्ने वैत्याः स्वरुमेवासामेतङ्गहिमान्यायस्य अर्जयवै यज्ञपदेत्याः हर्जयज्ञयन्ते हर्जयज्ञपजम् युष्मायम् इन्द्रा हरेन्द्रम् अग्रे संज्ञा मेला मेतत्सामानम् व्यालस्य स्वक्षितः ह्यत्याः सेनापक्षिताः अजैरोक्षाम्यज्ञैरोमाहाभ्यामित्याः महान् अक्षरे शस्त्राक्षरे त्रयावृद्धयज्ञः असौ सुन्दयदेवविद्याया इत्याः देव्याय देव शस्त्राक्षरे त्रया वृद्धयज्ञः असौभ्यक्ताय अवधो संलक्षावधो दाहराय नित्याह तक्षयामलहत्ये अरित्यास्वघटेत्याः यम् आदिभिः हत्यादेवेन प्रसङ्गलोके प्रलिप्ता जलेव तृत्याः प्रदक्ष्यत्ये पुरस्तास्वदेशेन देवमुत्तरगौमादिनेभ्यत्वाय तत्मानः पुरस्ताः प्रत्यङ्गे समुपतिष्ठन्ते हस्माः त्रयाभिः यज्ञादेवेऽभ्यः कृष्णा तुसम् धृता यत्कक्षादिने हरिदस्य वहन्ते यज्ञाधेम्यज्ञम् पर्यङ्के हरितोः कन्दाया अभिशमनमधिमानः प्रत्यमित्याह अभिशमेवैनः कलोजे फलित्वादित्या हरियत्त्वाया अग्नेत्रमोषेत्याह अग्ने तमोभ यतोषयः वातोभिसर्जनमित्याह शिलाहि प्रजाबोधेन ह्यन्ते हरिव्याः श्रीरम् देवन्त्यैरे भविष्प्रदेशेवानामविष्ट त्याहिदेवाः श्रेत्याः शाये किमयुधा हत्या हे मराभवन्ने अस्मात्मनाम् मध्ये अये चातुन्ते हे मराभवन्ते उच्चये समाहम् समाहरित्ये शृङ्खलेशामिन्द्रयम् धैर्यम् षष्ठलेशाम् भवते कैमलिप्ताम् शयचित्याः ऋषौद्धा वा ओषयः तजवृद्धा समृद्धये यज्ञगुरक्षाकृत्यः रक्षागुण्डनिलवधयुश्यभागेन कृत्याः परिश्रम्यै वायः पुनः प्रस्पन्दन्ते हे दोत्पाय हेमोभक्सविताहे अन्यवाय प्रतिबृह्णाच्याः प्रच्चे अविवाक्सन्धायः क्रियाबुद्धेज्ञः असौमयध्यत्वाय अवधूतकोलक्ष अवधूताराधयेत्याः रक्षामहते अनित्यास्त्रेत्याः जिलम्बादे हस्ताय वेण कृत्वा पुरस्ताः प्रदेशेन भारः तर्च्योमेन्ते परस्माः प्रजाङ्गाभृ शैलाय च कृष्णोकम् कृत्वायसि यज्ञा शैलैज्ञान्तयेषा मात्रलय कमः्या मात्रय कमःम् भयप्रसित्रायत्याः यावादृशव्याभेत्यै धृणागमगत्या प्रसिद्धायस्कम् भलद्वय श्रः श्यावादृशव्याविषत्यै हिमादिपार्वते परिताः कार्याहो अश्विः भावध्यामित्याह अश्विमभिदैवानामध्वर्यो आस्ता ध्यानित्याहत्यै अभिवदानेत्याहैवत्याह एतस्यैर्येण का विदेका देवता कामे चा वदाहु स्पश एः कानानि हेब्राह्मण्याः आजिरे वा अन्तरिक्षादि भवान् एतानि प्रस्कम्बन्ते एवोभक्ष्विकारृह्णाशृत्याः पुरस्कृत्यै हवितो स्कन्दाय अलम्भवन्साोनिपुरुदानि ब्रह्म ये अपाज्ञे नामादन्त्यम् देशादेव्यायत्य हेभ्योकपा त्याः कर्कागत्येव निर्धते हिवत्यन्नेव लोके ज्योति धालिव एव ज्योहित्य आदित्यमेलाके जल ज्योयत् मन्दो लोका भवन्ति चैहं मेला जो हेम् ब्रुं हेत्याः द्वे सप्तमत्यन्तरिक्षम् त्रिपुण्ठेत्याः अन्तरिक्षमेवेतेन वेदेन जगम्भतेनेवेदं मदे गोपालान्यवधाने श्रेणकाः ेषान्धकानाय गमजे गपाले हे गङ्गाजे गपालम् पुरुषत् बंभवजे हसद्वये हत त्रेण हथ चत्वारि अथ सत्मान्दागपालम् पुरुषत्र जिनः शैवम् गपा यज्ञो ये प्रजापतिः यज्ञमेव प्रजापतिः पुनस्तरोगे आत्मानेव न प्रज्ञस्ते अमक्षम् वाक्यनुपलेदे हरपदशादेतम् हन्नवा शिवसाद षड्दशा हिराजाद हिरेकादशाद षद्वादशा हरत्याद छन्दत्सम्मितानि सौपदशत्ते त्रिपुमरे त्याः हेमतानामेवेनानि समसार्थपदे साग्रिले सा निपालापन्वन्ति वेधकहिलस्परे हत्रामञ्जले श्वकादप्रसमः शिवेव वैत्याः कृच्छे एव चादृत्प्रभवैत्याः कृतो गे अस्य न्यामित्याः अस्य नैवानामध्वर्योस्तानाम् हो वत्नास्ताभ्यामित्याहयत्यये सम्भानेत्याः इदेव समागमभ्यक्षमृदयाधरेणेत्याह अपो आपोमा ओषधेरजिन्मन्दे ओषधे अपोजिं मन्दे अन्यावादेशाे तत्मादेवनाः ऋगुम्भोनेः प्रसेः ओषधेः आभव कथा अध्यपरिप्रजाना तथमध्यमितिपनिजा सुरक्षैवादत्या आपोढे महयन्ते तादृशे कालम् योगेत्याहेनाध्यानित्या ह्यावत्यै अधप्रजेत्याः यज्ञादयेन सहैदक्षिनः यत्त्वः सत्मादैवमाः धर्मः विश्वः हेवाजयाः सर्वेन वैहाजम् दधाते सत्माः प्रजागुम् सन् सन्नम् धर्मोपायजोन्तः र्यज्ञि करोति पशुमे करोति प्रिया वृद्धेज्ञः रक्षसापहत्यै हन्तरि ठुम् रक्षोरिताः रक्षसामन्तरिहृत्यै प्रोगासम्बाधिकुङ्रक्षादित्यलिभागम् तन् ेव्याः स्वरेना गित्याः रक्षताहत्यै अद्यच्चः गुण्डक्षप्ते अमुच्चैः हविरहन्द्रेवा यज्ञमेव ज्ञात्य प्रसङ्गे पगिदाः इतश्चेतौ मत्यस्तो पुरोणासः हय्यन्नाभिवादयेत् आदमत्यभिवादये सत्मात्मस्त्यष्कः सत्मनाभिवादये सप्तान् माकुन्देनाभिषण्णम् खेलेनाभिवादये सत्माख्ये च लक्षन्नम् अखलविभागुकाफले च एव यजमानस्य वशवः प्रदेब्रह्मणादिच्छत्रयरच्याः प्राणादये ब्रह्म प्राणाप्रशवः कायेरेव प्रसवन् सङ्गणक्ये समायिता भवन्ति यजमानवैपुरवदाशः प्रजाभजवः पुरेकम् अहम् भक्तम् जनयिष्यामि सत्यम् रक्षिते हे देवा अग्नौ समवर्तन हस्तासर्वा देवे सोऽङ्कारे नासः तोजायत तद्वितीयमक्षपालयत सोऽजायत सीयमक्षपालयत सतोजायत यदभ्यजायन्त सदात्यानामात्यत्वम् यदात्मभ्यजायन्त तदा हात्यानामात्म्यत्वम् हे देवाजन आत्यामृज सौर्याभ्योर्याभिौर्याभिम् अग्रदिषः परिवित् फलित्त्वा अन्तर्वेल्यावरुध्ये कुण्डुके नाभिगृह्णादित्वाय सुरगामाय वहिदेवाः शैवस्यत्वात् विदप्रसमदर्शनागत्य कृतो लोके कस्य नामानित्याहस्यो आत्याहयच्छण इत्याह इन्द्रियमेव इजमाने निर्मधर्मः रोगमेव चैतन्म हिमानव्याजश्च निपित्याह सौरे वायुः हे एवालकिन्द्रभागे त्याह्यानन्दे कोलध्याः गोस्थानमित्याह सन्द्रागम् गोस्थानः सन्द्रागत्यस्थानम् करोति परहृदयद्यौ इत्याह सत्यहृदयेद्योः परमस्यानाम् पलाभरेत्याह भोवानुवृतौ चञ्चैवद्वयष्टे शयन्द्वयश्चे ्याय अपहपुश्यायदे पृशव्या मन्य शिवम्बादम्बानुवर्यमासन्दातुर्यमेव दिवप्परिमासले हंबिल हरे सुर्यायेवर्यमहा देवेन महन्दे तुजेयगम् हरे न हन्दे ओन्द्रहरे अपरगितादेवेन वपहन्ते अपुरानाम् बाह्यमक्षः भवेत् का वजापश्यते कामेव अब्रवन् अत्रैव भवत्यामये कामक्षयम् परिग्रन्थे शैव समस्या लक्ष्मणः पर्यग्रन्थान् रुद्राख्यतिपक्षान् आदित्यास्य ते लक्षिणात्राञ्चोदयन् असुदक्षिणाः शुद्धे प्रत्यञ्चः आदित्येव दन्तः शत्येवम् परिगृह्णन्ते भवत्यात्मनाः कथाः या भवते देवस्तपयित्वात्यम् चलकामदाम् कालेन उद्यम् दक्षिणा वैध्यम् करोति साञ्चयते आवणे अत्र परिगृहे चेण प्राजा वेध्यम् भवन्ते भोनञ्च मध्ये धातव्यस्यैवज्ञा पुरुषिने प्रजास्युः कद्रवयेत्यः कद्रेणैव यज्ञादिक्षागच्छन्ते कृत्वा संहिताम् यताङ्गुलम् शेयाः शिलम् गुलम् खणते सरम् गुले चोढया प्रतिष्ठन्ते हा प्रतिष्ठायै खणते हिलमानदेव प्रतिष्ठाम् गणयते चक्षिणता एव हिलैव रूपमगः पुले गमये तव पुलेहम् एतावदेव आत्म उत्तरम्बरिग्राहम् परिगृह्णाते रमस्तु अधेत्याः एतत् क्षणोति यत्पथा अजेतयोक्ष्पाधिपत्ये चासेत्याः गुरुमेवे नाम् प्रत्येयम् करोते पुरात्याह नैध्यत्वाय राजाय जलेन्देदनामेवम् चन्द्रमयत्पथाभित्याः सेवात्याम् कृत्वा यमभिनेभ्यम् ेत्याः गोर्वये रोक्षे आसादो विः रक्षणाहते शु स्था ैवनः एतावते रक्तम् वातापादन् कामते अक्षयज्ञे सप्ता भक्ते राजाद्याः स्वत्यन् किं वृष्ट्या सञ्चारणेन अज्रौवेत्यः चिरम् कञ्चम् धारय अजयधर्यभक्षम् वेदा रत्ताः करिगञ्चम् धारयते अज्रौवेत्यः अध्ययनैवत्यक्षाच्च वहन्ते अद्यभ्याम् रागश्च प्रेतश्च हैदश्च धराजश्च हैल्यैव आत्मान भवत्या एवम् हानित्य आत्मानैव संरक्षाय धाय असरा शिखेस्तुस्तायुवर्षांदे उत्तर मनोखाधारे अपराधयाः प्रजानाम् प्रजनम् तस्यात्रा उपसादये प्रतिपादयते सम्प्रत्ययोपरिणाः प्रजानाम् प्रजनमपैे दक्षिणमिध्वम् उत्तरम् बलिः आत्मा वा इच्छे प्रजा उत्तरतराधेक्षमपनीय प्रतिष्ठे कले ताय प्रयना भवने जमाना